मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायम् एय्ट् देवर्षिवरप्रदानं श्रीगणेशाय नमः रविरुवाच तदोदिगर्विदो मोहासुरो दैत्यप्रतापवान् देवानां जीवकादार्थं प्रयत्नं स तदर्थं प्रेषयामास दैत्यान् परमदारुणान् कर्ममार्गस्य ते सर्वे चक्रुः खण्डनमादरात् स्वल्पकालेन भो विप्राक्कर्महीनं महीतलं कृतं दैत्यैश्च सर्वत्र त्रासिदा कर्मकारकाः वर्णाश्रमविहीनं थैकृतं सर्वत्र भूतलं धर्ममूलं तथा नष्टं बभूव क्रमधः मोहासुरस्य मूर्तिं दैत्यपास्तत्र लोकैर्वा पूजां सर्वत्र सम्मतां कारयामासुरुग्रैश्च दण्डैः सन्ताड्यमानवान् ततो मुनिगण सर्वे भ्रष्टा जाता विशेषतः मृदा केचित्तदारण्ये गदाः परमदारुणे तत्र ते भयसंयुक्ता क्रियां चक्रुर्महर्षयः एवं धर्मस्य विच्छेदकृतस्तेन सुरारिणा ततो देवगणः सर्वे भययुक्ता विशेषतः उपोषणसमयुक्ता विचारं चक्रुरे द्विजाः न प्रापुर्देव विप्रेन्द्रा उपायं सुखदं परं तदस्तानर्यमप्राक्शृणुध्वं सुरसत्तमाः मुनयश्च महाभागा वचो मेहितकारकं नामरूपधरं सर्वं तस्मान्मृत्युर्न वैभवेद मोहासुरस्य देवेन्द्रस्तत्रोपायं वदाम्यहम् गणेश्वरस्य हस्तेन दैत्योऽयं प्रमरिष्यति स्वयं योगमयप्रोक्तस्तस्मात् तं प्रभजामहे स एव निजबोधेन दैत्यपं हनिष्यति न सन्देहस्तु स सुरेश्वराः सूर्यस्य वचनं श्रुत्वा देवाकर्षसमन्विताः विष्ण्द्याश्च पुनस्तं ते जगुर्वचनमुत्तमं देवाऊचुः सम्यगुक्तं त्वया भानो बुद्ध्या त्वमधिको मदः सर्वेभ्यो जीवदाताभो जादोऽस्यत्र न ततो देवाश्च विप्राश्च तपसा गणनायकम् आराधयन् प्रयत्नेन विघ्नवारणकारणम् एकाक्षरविधानेनापूजयं स्तं निरन्तरम् अचपन्मन्त्रमाद्यं तुध्या यन्तो गणपं हृदि नानातपसमयुक्ता उपोषणपरायणाः ऋषयो देवदेवेश्या स विघ्नेश्वरमतोषयन् वर्षाणाम् शतकेष्वेवम् गदेषु गणनायकः आययौ तान् वरम् दातुम् भावेन तोषितः सौम्यतेजोयुतश्चैववाघुगः पूर्णो गजाननः चतुर्बाहुर्दयापूर्णो महोदरविराजितः एकदन्तो विशालाक्षशूर्पकर्णधरप्रभुः सिद्धिबुद्धिसमायुक्तो नाभिशेष विराजितः चिन्तामणिं गले बद्ध्वा नाकयज्ञोपवीधवान् एवं समाययौ देवो देवर्षीणां पुरो विभुः तं दृष्ट्वा देवविप्रास्ते हर्षिता भक्तिसंयुताः प्रणेमुः पूजयामासुर्यथा शास्त्रविधानतः ततस्तं दुष्टुवुः सर्वे कृताञ्जलय आदराद तद्दर्शनमहोत्साहा यथा मदय भोद्विजाः देवर्षय उजुः नमस्ते गणनाधाय महोदरस्वरूपिणे अनाधाय चनाधाय नाधाय सर्वेषां ते नमो नमः अनादिसिद्धिनाधाय बुद्धिनाधाय डुण्ढये हे रम्बाय सर्वदाय नमो नमः चतुर्बाहुधरायैव शूर्पकर्णाय ते नमः लम्बोदराय विघ्नेश विघ्नवारणदे नमः दे गजाननाय देवाय कुवाहाय महात्मने शेषनाभिस्थितायैवैकदन्दाय नमो नमः महागणपदे तुभ्यं सर्वकारणकारण भक्तवाञ्छाविधातानां हराय दु नमो नमः मायाश्रयाय माया, माया धारकाय महाभुज अभक्तकामदहनरूपाय च नमो नमः योगानां पदये तुभ्यं योगदात्रे व्ययाय स्वानन्दवासिने चैव योगाकाराय ते नमः सर्वेषां जठरेषु त्वं स्थित्वा भोगान् करोषि वै भोक्ता त्वदुदरे वै नः कोऽपि ते न महोदरः देहदेहि समयोगे बोधब्रह्मणि संस्थितं को जानादि च तं देवम् सोऽपि दर्शनदां गदः भक्तवत्सलभावेन प्रकटस्त्वं समागतः वयं तेन कृतार्ताश्च देवदेवेश निश्चितं वयं धन्यायदो दृष्टः सर्वोदरविलासकृत महोदरप्रसन्नात्मा साक्षाद्ब्रह्मपदिप्रभुः किं स्तौमि त्वां गणाधीश वेदादीनां तथोदरे संस्थितं प्रणमामस्तं योगगम्यं सनातनं रविरुवाच एवं स्तुतिं समाकर्ण्यप्रणयेन सुतोषितः जगादतान् गणेशानुभक्तिभावनियन्त्रितः महोदर उवाच वृणुध्वं मुनयश्च यथेप्सितं दास्यामि सकलं तद्वो भाक्रिया स्तोत्रेण तोषितः भवत्कृतमिदं स्तोत्रं भवेन्मत्प्रीतिवर्धनं पठतां शृण्वतां देवाः सर्वसिद्धिप्रदायकम् इति तस्य वच श्रुत्वा देवामुनिगणैः सह हर्षयोक्ता प्रणम्यैनं जगुस्तेदं गणेश्वरं देवर्षय ऊजुः यदि प्रसन्नतां यादो देवदेवेश विघ्नव तदा दे पदपत्मेनो भक्तिं देहि विशेषतः मोहासुरेण दुष्टेन स्थानभ्रष्टा कृता वयम् मुनयकर्महीनाश्च जहितं गर्वसंयुधं ब्रह्माण्डं विजितं तेन तत्र लोकाः सुदुःखिताः कृतास्तान् सुखदा वैभवस्वामिन् नमोऽस्तु ते तेषां वचनमाकर्ण्यतानुवाच तथेतिह भक्तवत्सलभावतः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्म महापुराणे तृतीये खण्डे महोदरचरिते देवर्षिवरप्रधानं नामाष्टमोऽध्यायः ओम्